नमस्ते ते रुद्र रुद्रमन्यवे मन्यव उतो उतो ते उतो इत्युतो त इषवे इषवे नमः नम इति नमः नमस्ते ते अस्तु अस्तु धन्वने धन्वने बाहुभ्याम् बाहुभ्यामुत बाहुभ्यामिति बाहो भ्याम् उत ते ते नमः नम इति नमः जाते क इषुः इषु शिवतमा शिवतमा शिवम् शिवतमेति शिव मा शिवम् बभूव बभूवते ते धनुः धनुरिति धनुः शिवा शरव्या शरव्याया या तव तव तया तया नः नो रुद्र रुद्रमृडय मृडयेति मृडय याते रुद्र रुद्रशिवा शिवा तनः तनूरघोरा अघोरापापकाशिनी अपापकाशिनीत्यपाप काशिनी दया नः नस्तनुवा तनुवा, तनुवा शन्तमया सन्तमया गिरिशन्त शन्तमयेति शम् कमया गिरिशन्ताभि गिरिशन्तेति गिरि शन्त अभि चाकसीः चाकसीःति चाकसीः यामिषुम् इशुम् गिरिशन्त गिरिशन्त शन्त हस्ते बिभर्षि बिभर्ष्यस्तवे अस्तव इत्यस्तवे शिवाङ्गिरित्र गिरित्रता गिरित्रेति गिरित्र ताम् कुरु कुरु मा हिगुंसे पुरुषं हिगुंसेः पुरुषम् जगदिति जगत् शिवेण वचसा वचसा त्वा गिरिश गिरिशाच्छा अच्छा वदामसि वदामसीति वदामसि यथा नः नः सर्वम् सर्वमित् यजगत् जगदयक्ष्मम् अयक्ष्मगुम् सुमना आहा, सुमना असत् सुमना इति सु मना आह असदित्यसत् अध्यवोचत् अवोचदधिवक्ता अधिवक्ता प्रथमः अधिवक्तेत्यधिभक्ता प्रथमो दैव्यः दैव्योऽभिषक भिषगिति भिषक अहेकश्च सर्वान् सर्वाम् जम्भयन् जम्भयन् सर्वाः सर्वाश्च स यातु धान्यः यातु धान्य इति यातु धान्यः असौ यः यस्ताम्रः आम्रो अरुणः अरुण उत उत बभ्रः बभ्रः सुमङ्गलः सुमङ्गल इति सु मङ्गलः जेष रुद्रा, रुद्रा अभितः अभितो दिक्षो श्रुताः श्रुताः सहस्रशः सहस्रशोव सहस्रश इति सहस्र शः अवैषाम् एषा गुम्हेडः हेड एमहे एमः इमह इतिमहे असौ यः यो असर्पति अवसर्पति नीलग्रीवः सर्पति नीलग्रीवो विलोहितः इति नील ग्रीवः विलोहित इति लोहितः उतैनम् एनम् गोपाः गोपा अदृशन् गोपा इति गो पाः अदृशन्नदृशन् अदृशन्नुदहार्यः हा। उदहार्य इत्युदहार्यः हा। उतैनम् एनम् विश्वा विश्वाभूतानि भूतानि सः स दृष्टः दृष्टो मृडयाति मृडयाति नः न इति नः नमो अस्तु अस्तु नीलग्रीवाय नीलग्रीवाय सहस्राक्षाय नीलग्रीवायति नील ग्रीवाय सहस्राक्षाय मेढुषे सहस्राक्षाय तिसहस्र अक्षाय मेढुष इति मेढुषे अथो ये अथो इत्यथो ये अस्य अस्य सत्त्वानः सत्वानोहं अहम् तेभ्यः तेभ्योऽकरम् अकरम् नमः नम इति नमः प्रमुञ्च धन्वनः धन्वनस्त्वम् त्वमुभयोः उभयोरात्नियोः आर्नियोर्ज्याम् ज्यामिति ज्याम् याश्च तेहस्ते हस्ते हस्त इषवः इषवः परा पराताः आ भगवः भगवो वप भगव इति भग वः वपेति वप अपतत्य धनुः अवतत्येत्यव तत्य धनुस्त्वम् त्वदम् सहस्राक्ष सहस्राक्षसते सुखे सहस्रा चेतिसहस्र अक्ष शते सुध इति शत त्रिषुधे निषेर्यशल्यानाम् निषेर्येति मुखा आ, मुखा शिवः शिवो नः सुमना इति सो मनाः भवेदि भव वेजम् धनुः वेज्यमिति वि ज्यम् घनः कपर्दिनः कपर्दिनो विशल्यः विशल्यो बाणवार विशल्य इति वि शल्यः बाणवागुम् उत बाणवानिति बाण बाणे उतेत्युत अनेशन्नस्य अस्येषवः इशव आभुः आभुरस्य अस्य निषङ्गथिः निषङ्गथिरिति निषङ्गथिः याते हेतिः हेतिर्मेढुस्तम मेढोष्टमहस्ते मेढोष्टमेति मेढुः मम बभूव बभूवते एर्धनुः धनुरिति धनुः तया स्मान् विश्वतः विश्वतस्त्वम् त्वमयक्ष्मयाः अयक्ष्मया परि परिभुज भुजेति भुज नमस्ते ते अस्तु अश्वायुधाय आयुधाय अनातताय अनातताय धृष्णवे अनाततायेत्यनाः तताय धृष्णव इति धृष्णवे उभाभ्यामुत उत ते ते नमः नमो बाहोऽभ्याम् बाहोऽभ्याम् तव बाहोभ्यामिति बाहो जाम् तव धन्वने धन्वन इति धन्वने परिते ते धन्वनः धन्वनो हेतिः हेतिरस्मान् अस्मा वृणक्तु वृणक्तु विश्वतः विश्वत इति विश्वतः अथो ये अथो इत्यथो य इषुधिः इषुधिस्तव इषुधिरितीषु धिः तवार आरे अस्मत् अस्मन्नि निधेहितम् sametetam namaste